वै शम्पायन उवाच तत्कर्म भीमस्य समीक्ष्य कृष्णः कुन्ति तौ परिशङ्कमानः निवारयामास महीपतिंस्तान् धर्मेण लब्धेत्यनुनीय सर्वान् एवं ते विनिवृत्तास्तु युद्धाद्युद्धविशारदाः यथा सर्वे विस्मिता राजसत्तमाः वृत्तो ब्रह्मोत्तरो रङ्गः पाञ्चाली ब्राह्मणैर्वृता इति ब्रुवन्तः प्रययुः ये तत्राशन् समागताः ब्राह्मणैस्तु प्रतिच्छन्नौ रौरवाजिनवासिभिः कृच्छ्रेण जग्मतु स्तौतु भीमसेन धनञ्जयौ विमुक्तौ जनसम्बाधाच्छत्रुभिः परिवीक्षितौ कृष्णयानुगतौ तत्र नृवीरौ तौ विरेजतुः पौर्णमास्यां घनैर्मुक्तौ चन्द्रसूर्याविवोदितौ तेषां माता बहुविधं विनाशं पर्यचिन्तयत् अनागछत्सु पुत्रो भैक्ष काले गति धाराष्ट्रैर्हता न स्यु विज्ञाकु पुंगवाह मयान्वर्वाक्षो व्यासस्यापि महात्मनः इत्येवं चिन्तयामास सुतस्नेहावृता प्रथा ततः सुप्तजनप्राये दुर्दिने मेघसम्प्लुते महत्यथापरा नेतो घनैः सूर्य ब्राह्मणैः प्राविशत्तत्र जिष्णुर्भार्गववेश्मतत् इति श्रीमहाभारते आदिपर्वणि स्वयंवरपर्वणि पाण्डवप्रत्यागमने एकोननवत्यधिकशततमोऽध्यायः